श्रीमद्भागवतमहापुराणं चतुर्षस्कन्ध अथैकोनत्रिंशोऽध्यायः प्राचीनबर्हिर्वाच भगवस्ते वचोऽस्माभिर्न सम्यग् अवगम्यते कवयस्तद्विजानन्ते न वयं कर्म मोहिताः नारद पुरुषं पुरञ्जनं विद्याद्यदिं व्यनक्त्यात्मनः पुरम् एकविचित्रचतुष्पादं बहुपादम् अपादकम् यो विज्ञातार्हितस्तस्य पुरुषस्य सखेश्वरः यन्नविज्ञायते पुंभिर्नामभिर्वा क्रियागुणैः यदा जिगृच्छन् पुरुष कार्ष्णेन प्रकृतिर्गुणान् नवद्वारं द्विहस्ताङ्घ्रिं तत् तत्रा मनु साद्विती बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतं यामधिष्ठाय देहे तु मानुभुङ्क्ते चविर्गुणान् सखाय इन्द्रियगुणाज्ञानं कर्म च यत्कृतं सख्यस्तद्वृत्तय प्राणपञ्चवृत्तिर्यथोरगः बृहद्बलं मनोविद्याद्भियेन्द्रियनायकं पञ्चाराः पञ्चविषया पंचा जन्मध्येनमुखं पुरम् अक्षिणी नासिके कर्णो मुखं शिष्णगुदावि द्वे द्वे द्वारं बहिर्याति यस्तदिन्द्रे संयुतः अक्षिणी नासिके आस्यन् इति पञ्च दक्षिणा कर्ण उत्तरा चोत्तर स्मितः पश्चिमे इत्यथो द्वारौ गुदं खद्योता विमुखी चात्र नेते एकत्र निर्मिते रूपं बृभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः नलनी नलनी गंध नलिनी नाशे घ्राणो घ्राणोऽवधूतो मुख्यास्यं विपणवो वाग्रसद्भृदं बृदसा अपाडो व्यवहारोऽत्र चित्रमन्धो बहुधनं पितृः दक्षिणकर्ण उत्तरो देवभूस्मृतः प्रवृत्तं च निवित्तं च शास्त्रं पञ्चालसङ्गितम् पित्रियानं देवयानं सूत्रासितधरा व्रजेत् आसुली मेढमर्वाग्वां द्वायुर्वायो ग्रामीणां रतिः उपस्थो दुर्मदः प्रोक्तो निरतिर्गुदुच्यते वयससं नरकं पायुर्लुब्धकोऽन्धौतुमेषणों युक्तो याति करोति च अन्तः पुरं च हृदयं विसूचिर्मनुच्यते तत्र मोहं प्रसादं वा हर्षम् प्राप्नोति तद् यथा यथा विक्रियते गुणाप्तो विकरोति वा तथा तपोतदृष्टात्मां तद्वृत्तेन कार्यते देहो रथस्त्वे द्विन्द्रिया स्वसंवत्सरयो गतिः द्विकर्मचक्रस्त्रिगुणध्वज पञ्चासु बन्धुरः मनोरस्मिन् बुद्धिसुतो शून्यो द्वन्द्वकूवरः पञ्चेन्द्रियार्थं प्रमे प्रक्षेप सप्तधातुवरोथकः आकृतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति एकादशेन्द्रियचमो पञ्चसूना विरोदक्रे संवत्सरश्चन्दवेगकालो येनोपलक्षितः हा। तस्या हानिः गन्धर्वा गन्धर्व्यो रात्रयस्मिताः हरन्त्यायोपरिक्रान्ता सट्योत्तरशतत्रयं कालकन्याचरा साक्षाल्लोकाल्लोकस्ताम्नाभिनन्दते स्वसारं सुञ्जगृहे मृत्योचयाय यवनेश्वरः आधयो व्याधयस्तस्य सैनिकायमुनाश्चराः भूतोपसर्गासुर्य प्रज्ज्वारो विद्विजो विद्वयोजो ज्वरः एवं बहुविधैः दुःखै दैवभूतात्मसम्भवैः क्लिश्यमानशतं वर्षं देहे देहि तमोवृतः प्राणेन्द्रियमनो धर्मान् आत्मन्यध्यस्य निर्गुणः शेते कमलवाध्यायन्ममाहमिति कर्म क्रेन् यदात्मानम् अविज्ञाय भगवन्तं परं गुरुं पुरुषस्तु निसज्जेत गुणेषु प्रकृते स्वदे गुणाभिमाली सतता कर्माणि कुरुते वश शुक्लं कृष्णं लोहितं वा यथा कर्माभिजायते शुक्लात्प्रकाशभूयिष्ठान् लोकान् आप्नोति कर्हि चेन् दुःखो दर्कान्ति आयासान् समशोकोत्कटान् क्वचिन् क्वचित् पुमान् क्वचिच्च स्त्री क्वचिन्दो भयमन्धति देवो मनुष्यतिर्यग्वां यथा कर्मगुणं भवत्परितो यथा दीनं सारमेयो गृहं गृहम् शरणं विन्दति यद् यद्दिष्टं दण्डमोदनमेव वां तथा कामा तथा कामाशयो जीव उच्चावचपथा भ्रमन् उपर्यथो वा मध्ये वा यातिष्टं प्रिया प्रियम्